स्पन्नोर्भ्यम् पर्वते शुश्रियाणाम् वाते पद्यन्ने वरुणस्य सुष्मे अभ्यमोषेभ्यो वनस्पतिभ्यो हि सम्भृतान् तान्यैतमोज्यम् धत्तमरुदस्य अस्मर्गस्थेक्षुतमुन्तेषु कृच्छुदयन् चुष्मः समुद्रश्च बाबा पावको अस्मभ्यकम् शिवो भव हिमस्य त्वा जलायुनाग्ने परिव्यजामति पावको अस्मभ्यगम् शिवो भवत्तरम् अग्ने पामसि मण्डो हिताभिरागहिते मण्डो यज्ञाम् पावकवर्णकम् शिवम् कृते पावक आचितयन्त्याभव ृजवृषसो न भाः तोर्बन्नया मन्द्रे च तस्य नो रणोघृणे नर अजरः अर्णे पावकरो विषामन्द्रया देवचक्वयादेवानमक्षियक्षिजा नः पावगते दिवाग्ने देवागम् विहावः उपयजतुम् हविष्टनः अवाभिनन्देनकुम् समुद्रस्य निवेशनम् अन्यन्ते अस्मत्तवन्तु हेतयः पावको अस्मभ्यकम् शिवो भव नमस्ते हरषे षोडिषे नमस्ते अस्मत्युषेः अन्यन्ते अस्मत्तवन्तु हेतयः पापको अस्मभ्यकम् शिवो भव िज्ञिया नाकुम्वत्सरे अहतानो हविषो यज्ञे अस्मिन् स्वयञ्जुद्धम् मधुरोहृतस्य हे देवा देवेश्व ब्रह्मणः पुरगेतानो अस्य हे द्योनत्ते पवते धामकिञ्जनो नृथिव्याधिसृ प्राणदा अबान्यानदाश्च क्षुब्दावच्चोदाहविबोधाः अन्यन्ते अस्मत्तपन्तुभेदः पावको अस्मभ्यगम् शिवो भव अग्न्यस्त्रित्वेन सोऽनायकंस्यन्यत्रिणम् आज्ञन्नावकंसे नयम् सैनानेकेन सुविदत्र अस्मेष्ट देवायुजिष्टस्वस्ति अध् गोपा उदरः परस्पाग्ने विश्वाभुवनानि जक्पदृषोता विषसा पितानः स आशिषा द्रविणमिच्छमानः परमच्छदोपद आविवेश विश्वकर्मा मनसा धाता विधाता परमोदसन्दृग एषामिष्टानि समिषा मदन्ति यत्र सत्तरिषेन् परगेकमाहुः यो नः पिता च विधाता यो नः सतो अभ्यादर्जान यो देवानान्नामधा एक एवत पुंसम् प्रश्नम् भुवनायञ्जन्या सायन्तद्रविनपुंसमस्मार्षयः असोत्पासोत्पादस्वाभिमाने ये भूतानि समगन्वण्डिमानिष्माकमन्तरम् भवादिहारेण प्राभृता जल्याजा परो दिवा परजेना पृथिव्या परो देवेभिरसुरेर्गुहाय च े प्रणविद्गर्भम् प्रथमम् दर्ध्रा भो यत्र देवाः समगच्छन्त देवा विश्वे अजस्य नाभावर्थे कमर्पिण यस्मिन्निदम् विश्वम्भुव न विश्वकर्मा येष्टदेवायुगन्धर्वद्वितीयः ौषधीनामुपाम् गर्भम् यदथा चक्षुणः पिता मनसा नन्नमाने यदेतन्ता अददृहन्तपूर्वादिद्या वा पृथिव्या प्रदेता विश्वतश्चक्षुरुत विश्वतो मुखो विश्वतो हस्तभुत सम्बाहुभ्याम् न मति सम्पदत्रे पृथिवे जनयन् देवयकः यद्यस्मिदासीदधिष्ठानमारम्भणम् कतमश्चित्किमासीत् देवोविञ्जनयन् विश्वकर्मा विद्यामो माचक्षाः कुसवृक्ष आसीद्यतो वा पृथिवे निष्वचक्षुः िणो मनसा पृच्छद कृतज्ञदर्थ्यक्षद्भुवनानि धारयन् ज्ञाते धामानि परमाणि याव मायामध्यमा विश्वकर्मन्नुतेमा शिक्षासखिभ्यो हविषस्वधास्वयञ्जयस्वतनुवञ्जुषाणः वाचस्पतिम् विश्वकर्माणमोतय मनोयजम् वाय अद्याहुवेमा समाने धिष्ठा हवनानि ज्योषते विश्वसम्भो नवजे साधुकर्मा विश्वकम्मन हमिषा वावधान स्वैस्वदनुरञ्जानः मह्यम् मन्ये अभिडः समर्दा इहास्माकम् मघवा सूरिरस्तु विश्वकर्मन हविषावर्धनेन तस्मै विषः समानन्दपूर्वेदयमुग्राविहव्यायथा सदय समुद्राय वयुनाय सिन्धूनाम् पतये नमः सर्वासां सर्वासाम् पित्रेऽहुता विश्वकर्मणे विश्वाहागुम् हविः नयाग्नेताय स्मो न प्रजया च धनेन च जातानामसद्वशी समेभ्योत् यस्य कुर्म तस्मै देवाधिभ्रमन् नयम् च ब्रह्मणस्पतिः उदुत्वा विश्वे देवाग्नेभरम् दि चित्तिभिः सदा भवशिवतमः प्रत्येको विभाव पञ्चदिशो देवे भवन्तु देवेरपामजिम् राधमानाः राजस्पोषयज्ञपतिमा भजन्तेः राजस्पोष अधियज्ञो अस्मात् समिद्ध अज्ञापधिमा महानः उत्सवत्रये ज्ञागभेतस्तप्तम् घर्मम् परिगृह्यायजन्त ूर्याय जज्ञमशमन्तदेवादेव्याय भद्रेजोऽष्ट्रे देव श्री श्रीमणाः शतमयाः परिगृह्य देवायज्ञमायन् सूर्य हरिकेजः पुरस्तात् समिता ज्यो निरुदयागुम् अजस्रम् तस्य गोढाः प्रथमैया देवः सम्पश्यन् गोपाः र्यन्तो अस्थर्वेदकुमित्रेषा यजध्यै यत्र हव्यमे निरतः पाभका आशितो नुषन्नास्तावप्रियाम् द्वादशे अन्तरिक्षम् विश्वाचेरभिचटघृता चेरन्तरापो नमपरम् च केवलम् रणस्य पर्णः पूर्वस्य योनिम् स्वामिनक्रमेद्रव्य च सञ्जिरः रथीनाम्भाजापदिम् पदिम् यज्ञो देवागुम् आचवक्षद्यक्षदज्ञोवागुम् आचवक्षद ग्रहेत् अथापत्रागुम् इन्द्रो मे निग्राभेणाचरागुम्भः ग्राभम् च निग्राभम् च ब्रह्मदेवामे पृथन् अथ समत्रादिन्द्राग्ने मे विशोचेनान्वस्यता घनः क्षोभनस्कर्षणीनाम् चन्द्रन्दनानि मिषरेण वीरश्रतगुङ्गेन अजयत् सागमिन्द्रः सन्द्रन्दनेनानि मिषेण जिष्णुना युत्कारेण दुश्च वनेन जिष्णुना अजीन्द्रेण जय न तत्सहद्भञ्जानरयिषु हस्तेन कृष्णाः सरयिषुहस्ते सरि ष्ट यत्स्वमपाहु सद्योराभिरष्टा बृहस्पते परियामित्रागम् अपबाधमानः प्रभञ्जयन् सेनाः प्रमो विभाजयन्नस्माकमेतारथाना गोपितम् वज्रपाुञ्जयन्तमध्म प्रमणम् तमोजसा नुवीर्यभ्रम् प्रवीरः सहस्वानुधाये सह मान उग्रः अभिलेरो अभिधत्त्वादो जानयत्रलखमानिष्ठ गोविद अभिगोत्राणि मानो धायो वीरः शतमन्यः प्रदनाजालयद्यस्माकंसेनावधो प्रयत्सो इन्द्रेता बृहस्पतिर्दक्षिणायज्ञः पुरगेदसोमः एव सेनामृषञ्जरीनाम् जयन्वीनाम् मरुतो यन्त्रग्रे इन्द्रस्य विष्णो वरुणस्य राज्ञ आदित्यानाम् मरुतांशब्धमुग्रम् महामनसाम् भुवनच्यवानाम् घोषो देवानाम् डेतामुदस्थात् अस्माकमिन्द्रस्तमुदेध्वजेष्वस्माकय्यायुष वस्ताजयन्तो अस्माकम् वीरावृत्तरे भवन्तस्मानुदेवा अवगाहवेषु मघपन्नायुधान्युत्सत्पनाम् मामकानाम् महापुंसे रुद्रत्यान्वाजिनान्वाजिनान्य तु घोषः उपहप्रे चेदानरस्थिरावस्कन्तु बाहवः इन्द्रादर्शर्म यच्छत्पदा शिष्या यथा तथा अपपशष्टा परापदशरव्यमेधानाक्षिषः तन्त्वामनुवदन्तु देवाः क्षत्रपाणाः सम्पदन्ति कुमाराणि शिखा इव इन्द्रानस्तत्र वृद्धः विश्वाः यच्छलोर्जन्नादे चिक्षदः ृष्ठत्वारिक्षमारुहमन्तरिक्षाद् पृष्ठात् सुज्योतिरगामहम् सुवर्यन्तो नापेक्षाद्यागुम् रोहन् निरोदधिकुम् सुमिद्वाकुम् स्वामिते निरे अग्ने आग् प्रे प्रथमो देंव यक्षमाना क्षमा भृगुभस जोषा सुवर्यंत्र विदमा स्वस्थ नर्को सा समन सालोपे धापय समेचे क्षाम देवाग्मीधार योदा क्षसमोर्ध्वम्पुंसाहस्रस्य राजनी चेतस्मैतेवर्णादिकरोत्मान् पृथिव्यापुंसेत पृष्ठे पृथिव्याः सेतभासान्तरिक्षमापिषद्योतिराजवमुक्तश्रम्भा आयुह्वानस्तु प्रतीकः पुरस्तादग्सीतसाध्या अस्मिन् सधस्थे अभ्युत्तरस्मिन् विश्वे देवायुजमानुष्ठताग्नेया सूर्म्यायविष्ठा आगुं जस्वन्तमुदयम् दिवाजाः विधेमदेव रमे जन्मन् अग्ने विधेमस्त्वमेरवरे सधस्थे ृेज याम्श्चन्द प्रिया त्वा यजन्ति सप्तयोमाधृतेन ईलङ्गान्यादङ्गैकादङ्गलिङ्गमितश्च संवितश्च ताः शुक्रज्योतिश्च चित्रज्योतिश्च सत्यज्योतिष्ठज्योतिष्मादिश्च सत्यश्च तपाश्चात्यरूहा सत्यजिच्चसेन सुरेणश्चान्त्यमित्रश्च दोरेण मेत्रश्च घनः यदश्च सत्यश्च ध्रुवश्च धरुणश्च धर्ता च विकासश्च संविकासश्च न भूतये सफलतो मरुतो यज्ञे अस्मिन्निन्द्रन्दैर्विर्मिषो मरुतोऽनुवर्त्मानो यदेशो मरुतोऽनुवर्त्मान एवमेजमानन्दैवेशो मानुषेश्चानुवर्त्मानो भवन्तो तस्य बभो युप्रदेश्यर्मीयादिसमतामुपस्थे अनाविद्धयादनुवादयत्तकम् सत्त्वा नाम हिमापि पर्तो धन्मनागाधन्मना युञ्जयेम धन्वना ते व्राः समजोजयेम धर्मश्रत्रोरपकामम् कृणो निधन्वना सर्वाः प्रतिशोदयेम लक्ष्यन्ति वेदागमेकि कर्णम् प्रियकम् सखायम् परिशस्व जाना विचता ते वयोषा शिंते चता सन्पंचागुंती आचरते पुत्रे शून विध्यंसं आदिइमेंफु अम्त्रे बीना पिता बहुत पुत्रशाण जिसम् ङ्गाः पृतनाश्चर्वाणो चक्रतो तिष्ठन् वाजिनः पुरो यत्र यत्र कामय तेषुषा नेषो नाम् महिमानम् पनाय गमः पश्चादम यच्छन्ति रश्मयःपानय स्मारथेभिः सह वाजयन्तः अपक्रामन्तः प्रपदे रमित्रान् क्षिणन्ति शत्रो गौण पौजयन्तः रथवाहनगुंहविरस्य नाम यत्रायुधन् निः तमस्य वर्म तत्रारथमुपशक्मकुंसदेमविश्वाः वयगुंसवनस्य मानाः सादृशकुंसदः पितरावयोधाकृच्रैः सा शक्तिमन्त गभीराः सतो वीरा सदो वीरादसाः ब्राह्मणादः पितलः सौम्यादशिवे अनेहसा पुराणः पादु विदाकृता मृतो रक्ष्यामा जन्मोऽजगुम् सरीशतम् हस्ते मृगो अस्यादन्तो गोभिः सन्नद्धापदैप्रसूता यत्रा नरः सन्त्यत्रवन्ति तत्रास्मभ्यभिषवः शर्म यन्थिनोऽस्मा भवतु नस्तनो भवेत् नो चितिः शर्म यच्छतो आजन्धन्ति सान्वेषाम् जघनागम् उपचिभते अश्वाजनि प्रजेदतो स्वान् अभिरभ पिरीजय बाहुल हेतुमा हस्त विश्वा वैराने विद्वान्मागुम सी विश्वजे गौरी भोज अस्पत्सखा प्रदरण सुवीर गो भी सन्नध्वायस्व स्वाताजय दुजय्वाने ्यापर्योजमुद्भृतम् वनस्पतिभ्यः पर्यापृतगुम् सह अपामोज्ज्वालम् परियोभिरावृतमिन्द्रस्य वज्रगुम् हविनाथयस्य वज्रो मनुतामनीकम् मित्रस्य गर्भवरुणस्य नाभिः सेमान्नो हव्यजाषाणो देवरथप्रतिहव्यागर्भाय आश्वासय पृथिवे मुद्याम् पुरुत्रादयनुताम् पृष्ठितम् जगत् स्वदम् दुभेदोरिन्द्रेण देवेर्दूराद्धेधशत्रू आक्रन्दयपनमोजो नासा निष्टिता भाषमानः अपप्रोचतुम् दुभेदुच्छुनागुम् इदरिन्द्रस्य मुष्टिरतिपीडयस्व आमूरजप्रत्यावर्तयमाक्यतुमद्दुन्दुभिर्भावदीति समस्वर्णाश्चरन्ति नो नरोऽस्माकमिन्दरतिनो नियन्तु यदर्क्रन्दः प्रथमम् जायमानबुद्यान् समुद्रामुदबापुरीडा शयणस्य भक्षाहरिणस्य बाहु प्रस्तोत्यम् महि दातन्ते अर्वन् यमेण दत्तम् तृदयेण मारिमगेन्द्रयेण प्रथमो अध्यतिष्ठत् गन्धर्वो अस्य रसनामगर्भंसो राजस्कम्बस बोज अधि यमो अस्यादित्यो अर्वन्नोक्येन असि सोमेन समजामितृक्ताहुश्चे त्रेण दिविबन्धनानि क्रीडिताहुर्दविबन्धनानि त्रेण्यप्सुत्रेण्यन्तः समुद्रे मे वरुणश्चाम् सर्वजयत्रादाहुः परमम् जनितम् इमादेवायन्यमार्जनानिमाचभानागंस चतुर्निधानाः अत्रादे भद्रादशनापश्य मदस्य जाभिरक्षन्ति गोपाः आत्मानन्दे मनसानादजाना ममो युवापदयन्तम् पदङ्गम् श्रु अवश्यम् पतिभिरहमानम् पदत्रे अत्रादयरूपमुत्तमम्यमाणविवः यदा जयमर्तो अनुभोगमानलाकृतिष्ठवोषीरीकः अथ अवर्यो अर्वण्यगावोऽनुभगः कनी अनुरादास्तव लक्ष्यमे अरणुदेवामीर्यन्ते हिरण्य सङ्गो यो अस्य बादामनोज भाव्र आदेवायुरस्य हविरद्यमायनयो अर्वन्दम् प्रथमो अध्यतिच्छत् ये मान्तास्य निजमध्यमादस्ये यशो यदन्ते यदाक्षिषव्यमज्ञमश्वाः तव शरीरम् पदयस्पर्वन्तव चित्तम् वातयिबध्यजीवान् तव शृङ्गानि मिष्ठिता पुरुदारण्येन दर्भुरानाचरन्तिगाच्छ मनसादेध्यानः अजः पुरोणीयतेनाभिरस्यानुपश्चात् कपयोयन्ति रेभाः कुपप्रागाः च गम्यादाश्चर्याणि मानो मित्रो वरुणो अर्यमायुरिन्दुक्षानु मरुतः परीक्षन् तद्वाजिनो दैवजातस्य सप्तक्ष्यामो विदधर्याणिर्निजाय क्रथात् प्रापस्य राज्यभेदाम् मुखतो नयन्ते सुप्रा नियोरोभेन्द्रापोष्णोमप्ये दिपार्थः एषच्छागः पुरो अश्वेन वायिना पूष्णो भागो दीयते विश्वदेव्यः अभिप्रियम् यत्तुरोटासमर्मदात्मस्तेगेन पुंसौ श्रवसाय जिन्मति यद्धविष्य मृदयो देवयानन्तर्मानुषाः पर्यश्वयन्ति अत्रापोष्टः प्रथमो भागयेन दे यज्ञम् देवेभ्य प्रतिवेदयन् नरः भवताद्भर्यरामयाज्ञमिन्धोऽदरक्ष्यस्तादविप्रः तेन यज्ञेन स्मरम् कृतेन स्पृष्टेन वक्ष नाणध्वनम् योगपुरस्ता उदये योपवाहा शशालये अश्वयोपाय दक्षति एता देवजनम् संहरन्त्युतो तेषामभिगो नयन्वतो प्रागात् सुमन्मेधा यमन्वदेवानामासा उपवेतपृष्टः अन्वेन विप्रार्हयो मदन्यदेवानान् पृष्टे च कर्मा सुबन्धौ कामचन्दानमर्वतोशीर्षण्यानदनारज्युरस्य क्षिका रिक्तमस्ति यद्धस्तयोश्च अपि देवेश्वस्तु यदो मध्यमुदरस्यापपातय आमस्य क्रविडो गन्ध अस्ति सुकृतार क्रण्वन्तु तमे झघुंशतपाकम् पचन्तु यत्तेकात्राग्निना वक्ष्यमानादभिशो रन्निह तस्यावधावति मातद्भोम् न्यामाश्रमाग्रेषु देवेभ्यस्तृषद्भ्यो रातमस्तु ये वाजिनम् प्रयपश्यन्ति पक्ष्मञ्जलीवाहस्सुरभर्जलहरेति ये चार्वतो माघम् स भिक्षामुपासदमुतो तेषामभिगोः निर्णयिन्वतो यन्नेक्षणम् मागस्पजन्यामुखा उखायाया पात्राणि योष्ण आसेदनानि ओष्ण्या विधाना च लोणामङ्काः सोनाः परिभोषन्त्यस्मम् निक्रमणम् निषलनम् विवर्तनम् यच्च पद्वीशमर्वदः यच्च पवो यच्च घासम् जघा इष्टम् वेदमभिगोक्तम् वषट्कृतम् तम् देवासः प्रतिगृर्भन्त्यस्मम् यदस्मायवाथमुपस्कृनन्त्यन्यस्मै सन्धानमर्बन्दम् पद्बीजम् प्रिया देवेष्वायापयन्ति यत्ते स देवः सा सुकृतस्य वाष्णया वा कृषया वा चोदा देवता हविषाध्वरेण सर्वदा दे ब्रह्मणा श्वस्य रश्वस्याविशस्ता द्वायन्ताराभवतस्त शर्दुः ज्ञाने गात्राणामुणो विकातापिण्डानाम् प्रजुहाम्यग्नौ न वापु वेतन्वियते नेष्यति देवागञ्जि च पतिभिः शृगेभिः हरे तैम् चापृढते अभो रामास्थाभस्य स्वगव्यम् न वाजेश्व श्रियम् पुकुंशः पुत्रागम् उदविश्वापुरगौरयम् नागास्पन्नादयक्षणालक्षत्रम् न अश्वावनतागो हविष्मान् हो